श्रीहरये नमः अथ चतुर्थोऽध्यायः उद्धव उवाच अदते तदनुज्ञाता भुक्त्वा पीत्वा च तया विप्रंसितज्ञा दुरुक्तैर्मपस्पृशोः तेषां वैरेयधोषणेन विषमीकृतचेतसां निम्लोचति रवासि वेणूनामिव मर्दनम् भगवान् स्वात्ममायाया गतिं ताम् अवलोक्य अहं चोक्तो भगवता प्रभन्नार्तिहरणेह भदरीं त्वं प्रायहीति स्वकुलं सञ्चिहीर्षुणा अथापि तदभिप्रेतं जानन्नहमरि पृष्ठदोन्वगमम् भर्तोपादविश्लेक्षणाक्षमः अद्राक्षमेकम् आसीनं विचिन्वन्दयितं पथिं श्रीनिकेतं सरस्वत्याम् कृतकेतं श्यामावधातम् प्रशान्दालोचनम् दोर्भिश्चतुर्भितम् पीतकौशाम्बरेण च वामवरावति स्त्रिय दक्षिणाग्रिसरोरुहम् अकृशं त्यक्तपिप्पलं तस्मिन् महाभागवतो त्वयिपायनसुहृत्सखा लोकाननुचरन् सिद्ध आससादयत्रुश्चया तस्यानुरक्तस्य मुनेर्मुकुन्त प्रेमोदभावानत गन्धरस्य आशृण्वधो समीक्षया विश्रमयन्मुवाच श्रीभगवानुवाचा वेदाखमन्तर्मनसीप्सितं ते दधामि यद्धुरवापमन्यैः सत्रो पुरा विश्वसृजाम्बसूनां मत्सिद्धिकामेन वसोत्वयेष्टः स एष भवानाम् आसादितस्ते मदनुग्रहो यत् यन्मानृलोकान् रकवुत्सृजन्तं दिष्ट्या दतृष्वान् विसधानुवृत्तय पुरा मया प्रोक्तमजायनाभ्ये पद्मे निषण्णायमभाधिसर्गे ज्ञानं परं मन्महिमा यत्सूरयो भागवतं वदन्ति विद्याधृतोक्तपरमस्य पुंस प्रतिक्षण अनुग्रहभाजनोऽहं स्नेहात्तरोमा कलिताक्षरस्थं मुञ्चन् शोचः प्राञ्जलिराभभाषे कोन्वीसते पादस रोजभाजां सुदुर्लभोर्तेषु चतुर्ष्वपिह तथापि नाहं प्रवृणोऽपि भूमन् भवद्भदाम्बोचनिषेवणोत्सुकः कर्माणि अनेकस्य भवो भवस्य ते दुर्गाश्रयो तारिभयात्पलायनं कालात्मनो यत्प्रमदायुधाश्रयान् स्वात्मन्रथे किद्यतिधिर्विधामिह मन्त्रेषु मां वा उपहूय अकुण्ठिता कण्ठसदात्मबोधः वृश्चे प्रभो मुक्तयिवा प्रम अस्तन्तो मनोमोहयतीव देव ज्ञानं परं स्वात्मरह प्रकाशं। प्रोवाच कस्मै भगवान् समग्रं। अपि क्षमं नो ग्रहणाय भर्तर् अधाञ्जसाय वृजिनं मह्यं स भगवान् परः आदिदेसारबिन्दाक्षम् आत्मनः परमां स्थितं स एवमाराधितपादतीर्थान् अतीततत्त्वात्मविभूतमार्गः प्रणम्य बाधौ परिवृत्य देव इहागतोऽहं विरहातुरात्मा सोऽहं तद्धर्शनाक्लात वियोगार्तियुतः प्रभो हमिष्ये दयिदं तस्य भधर्याश्रममण्डलं यत्र नारायणो देवो नरस्य ना भगवान् ऋषिहे मृदुतीव्रं तपो दीर्घं दे भा ते श्रीशुक उवाच यद्युद्धवात् उपाकर्ण्य सुकृतां दुस्तखं वधं ज्ञानेन असमयक्षोकम्बुत्पतितं बुतः सतं महाभागवतं व्रजन्तं कौरवर्षभः विश्रम्भातभ्यधत्तेधं मुख्यं कृष्णपरिग्रहे पितुर उवाच ज्ञानं परं स्वात्मरहः प्रकाशं यदा कयोगेश्वर ईश्वरस्ते वक्तुं भवान्नोर्हति यद्धिविष्णोर्भृत्या स्वभृत्यार्थकृतशरन्ति श्रीबुद्धवो उवाच ननु ते तत्त्वसम्भ्राध्य ऋषिकौशारवोन्तिके साक्षात् भगवदादिष्ठो मद्यलोकं जिहासता श्रीशुक उवाचा इति स कवितोरेण विश्वमूर्ते गुणकथया शुधया प्लावितो रुतापः क्षणमिव पुलिनेयमस्व सुस्तां समुषित औभविर्निसां तथोघात् नितनमुपगदेशो भृष्णिभोजेषु अधिरतयूतपयोतपेशो मोख्यः स तु कथम् अवशिष्टबुद्धवो यत् हरिरभितत्यज आकृतिं त्रयदीशः श्रीसुख उवाच ब्रह्मशापापदेशेन कालेन अमोघवाञ्चितः संहृत्य सकुलं नूनं त्यक्षयन् देहम् अचिन्तयत् अस्मा अस्मालोकादुपरते मयि ज्ञानमदाश्रयम् अर्हद्युद्धव एव धा संप्रयत्यात्मवधां वरहा नोद्धो वो ण्पि मन्यूनो यद्गुणैर्नार्तितः प्रभुः रखायन् इह तिष्ठतो एवं त्रिलोकगुरुणा सन्तिष्टशब्दयोनिना भधर्याश्रममसाध्य हरिमीजे समाधिना विधिरोप्युद्धभाष्णस्य परमात्मनः क्रीटयोपातदेहस्य कर्माणि श्लाघितानि च देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् अन्येषां दुष्करतरं पशूनां विक्लवात्मना आत्मानं च कुरु श्रेष्ठकृष्णेन मनसेक्षितं ध्ययान् गते भागवते रुरोधप्रेम विक्वलः कालिन्द्या कदिभिश्चिद्ध अहोभिर्भरदर्षभः प्रभात्यधस्वशरितं यत्र मित्रासुतो मुनिः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते वितुर उद्धवसंवाते चतुर्दोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिके जय